चाणक्यनीति अध्यायम् यैट् अधमा धनमानौ धनमा च मध्यमाः उत्तमा मानमिच्छन्ति मानोहि हि महतां धनम् मूलं पयोमूलं ताम्बूलं फलमौषधं भक्षयित्वापि कर्तव्या स्नानदानातिका क्रियाः दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा वित्तं देहि गुणान्वितेषु मधीमान्नान्यत्र देहि क्वचित् प्राप्तं जलं खनमुखे माधुर्ययुक्तं सदा जीवांस्तावरजङ्कमांश्च सकलान् सञ्जीव्य भूमण्डलम् भूयः पश्य तदेव कोडिगुणितं गच्छन्दमम्भो निधिम् चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः ये को हि यवनः प्रोक्तो न नीचो यवनात् परः तैलाभ्यंगे चिताधू मैथूने क्षौकर्मण तवदी चांडा यनाचरेत अजीर्णे भेशज वारी जीर्णे वारी बलप्रदम भोजने चामृद वारी भोजनान्ते विशापहम् हदं ज्ञानं क्रियाहीनं हदश्चाज्ञानदो नरः हदं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः वृद्धकाले मृदा भार्या बन्धुहस्तगतं धनं भोजनं च पराधीनं तिस्रः पुंसाम् विडम्बनाः नाग्निहोत्रम् विना वेदा न विना क्रिया न भावेन विना हि कारणम् न देवो विद्यते दे काष्ठे न पाषाणे न मृण्मये भावे हि विद्यते दे, देवस्तस्माद् भावो हि कारणं कारणम् काष्ठपाषाणधातूनां कृत् धावेन सेवनम् श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः शान्तितुल्यं तपो नास्ति न सन्तोषात् परं सुखं न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः क्रोधो वै राजा तृष्णा वैतरणी नदी विद्या कामदुधा धेनुस्सन्तोषो नन्दनं वनम् गुणो भूषयते रूपम् शीलं भूषयते कुलं सिद्धिर्भूषयदे विद्यां भोगो भूषयेदे धनम् निर्गुणस्य हतं रूपं दुःशीलस्य हदं कुलम् असिद्धस्य हदा विद्या ह्यभोगेन दम् धनम् शुद्धम् भूमिगदम् तोयम् शुद्धा नारी पतिव्रता शुचिः क्षेमः परो राजा संतोषो सन्तोषोऽब्राग्मणः शुचिः असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः सलज्जागणिका नष्टा निर्लज्जाश्च कुलाङ्गना किम् कुलेन विशालेन विद्याहीनेन देहिनां दुष्कुलं चापि विदुषो देवैरपि स पूज्यते विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ऋणकर्ता पिता शत्रुर्माता जव्यभिचारिणी भार्यारूपवती शत्रुः पुत्रशत्रुरपण्डितः मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी अन्नहीनो दहेद्राष्ट ्रम् मन्द्रहीनश्च ऋत्विजः यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ओ